अथैकनवतितमः सर्गः कृतबुद्धिम् निवासाय तत्रैव समुनिस्तदा भरतम् केकयी पुत्रमातिथ्येन न्यमन्त्रयत् अब्रवीद्भरतस्त्वेन जाने त्वाम् प्रीतिसंयुक्तम् तुष्येस्त्वम् येन केनचित् सेनायास्तु कर्तुमिच्छामि भोजनं। मम प्रीतिर्यथा रूपा त्वमर्हो मनुजर्षभा किमर्थम् चापि निक्षिप्य दूरे बलमिहागतः कस्मान्नेहोपयातोऽसि सबलः भरतः प्रत्युवाचेलम् प्राञ्जलिस्तम् तपोधनम् न सैन्येनोपयातोऽस्मि भगवन्भगवद्भयात् प्राज्ञा हि भगवन्नित्यम् राजपुत्रेण वा तथा यत्नदः परिहर्तव्या विषयेषु तपस्विनः वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः प्रच्छाद्य भगवन् भूमिम् महधीमनुयान्ति माम् ते वृक्षानुदकम् भूमिमाश्रमेषूटजांस्तथा न हिंस्युरिति तेनाहमेक एवागतस्ततः आनीयतामितस्येनेत्याज्ञप्तः परमर्षिणा तथानुचक्रे भरतः सेनायाः समुपागमम् अग्निशालाम् प्रविश्याथ पीत्वा पः परिमृज्य च आह्वये विश्वकर्माणमहम् फष्टारमेव आतिथ्य कर्मचा त्र मे संवीयता आह्वे लोकपालाक्रपुरगमा आतिथ्य कर्मचा त्र मे संवीयता स्रोतस एव पृथिव्यामे सामयांश अन्याः स्रवन्तु मैरेयम् सुरामन्याः सुनिष्ठिता अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् आह्वये देव गन्धर्वान् विश्वा वसुह आहुन् तथैवाप्सरसो देव गन्धर्वैश्चापि सर्वशः घृताचीमथ विश्वाचीम् मिश्रकेशीमलम्बुषाम् नागदत्ताम् च हेमाञ्च सोमामद्रिकृतस्थलीम् शक्रम् याश्चोपतिष्ठन्तिर्ब्रह्माणम् याश्च भामिनीः सर्वास्तुम् बुरुणा सार्धमाह्वय सा वनं वनम् दिव्यं वासो भूषणपत्रवत् दिव्यनारीफलम् शश्वत् तत् कौबेरमिहैवतु इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् भक्ष्यम् भोज्यम् च चोष्यञ्च लेह्यम् च विविधम् विचित्राणि च माल्यानि पादपप्रच्युतानि च सुरादीनि च पेयानि मांसानि विविधानि च एवम् समाधिना युक्तस्तेजसा प्रतिमेन च शिक्षा स्वरसमायुक्तम् सुव्रतश्चाब्रवीन्मुनिः मनसाध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः आजग्मुस्तानि सर्वाणि दैवतानि पृथक् मलयम् दर्दुरम् चैव ततः स्वेदरुदो निलः उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखम् शिवः ततोऽभ्यवर्षन्तघना दिव्याः कुसुमवृष्टयः देवदुन्दुभिघोषश्च प्रजगुर्देव गन्धर्वावीणाः प्रमुचुस्वरान् सशब्दोद्याम् च भूमिम् च प्राणिनाम् श्रवणानि च विवेशोच्चावचश्लक्ष्णः समो लयगुणान्वितः तस्मिन्नेवम् गते शब्दे दिव्ये श्रोत्रसुखे नृणा ददर्शभरतम् सैन्यम् विधानम् विश्वकर्मणः बभूवहि समा भूमिः समन्तात्पञ्च शाद्वलैर्बहुभिश्चन्ना नीलवैलूर्यसन्निभैः तस्मिन् बिल्वाः कपित्थाश्च परसा आमलक्यो बभूवुश्च चूताश्च फलभूषिताः उत्तरेभ्यः कुरुभ्यश्च भवनम् दिव्योपभोगवत् आजगामनदीसौम्याधीरजैर्बहुभिर्वृता चतुःशालानि र्ण्य प्रासाद संयुक्त तोरणानि शुभानि च सितमेघनिभम् चापि राजवेश्म सुतोरणम् शुक्लमाल्यकृताकारम् दिव्यगन्ध समुक्षितम् चतुरश्रम संवाधम् शयनासनयानवत् धौतनिर्मलभाजनम् क्लब्दसर्वासनम् श्रीमत्स्वास्तीर्नशयनोत्तमम् प्रविवेशमहाबाहुरणुज्ञातो महर्षिणा वेश्म वेष्मतद्रत्नसंपूर्णं भरतः कैकयीसुतः कै सर्वे मन्त्रिणः स दृष्ट्वा वेश्मसंविधिम् तत्र राजासनम् दिव्यम् यजनम् भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् आसनम् पूजयामास रामायाभिप्रणम्य च वालव्यजनमादाय न्यशीदत्सचिवासने आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः ततः सेनापतिः पश्चात्प्रशास्ता च न्यशीदता ततस्तत्र मुहूर्तेन नद्यः उपातिष्ठन्त भरतम् भरद्वाजस्य शासनात् आसामुभयतः कूलम् पाण्डुमूर्तिकलेपनाः रम्याश्चावसथा दिव्या ब्राह्मणस्य प्रसादजाः तेनैव च दिव्याभरणभूषिताः आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता स्त्रियः सुवर्णमणिमुक्तेन प्रबालेन च आगुर्विंशतिसाहस्राः कुबेरप्रहिता स्त्रियः याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते आगुर्विंशतिसाहस्रानन्दनादप्सरोगणाः नारदस्तुम्बुरुर्गोपः प्रभया सूर्यवर्चसः एते जगुः अलम्बुषा मिश्रकेशी पुण्डरीकाथ उपानृत्यन्त भरतम् भरद्वाजस्य शासनात् यानि माल्यानि देवेषु यानि, यानि चैत्ररथे वने प्रयागेतान्यदृश्यन्त भरद्वाजस्य तेजसा बिल्वा मार्दङ्गिका आसन् छम्या भरद्वाजस्य तेजसा ततः सरलतालाश्च प्रहृषास्त सु कु भूवाथ शिशपा मलकी जबूरिया का मलती मल्लिका जातिरिया का नमद विग्रह भरद्वाजाश्रसन सुरां सुरा पिबत पाय सच बुभुक्षिता मांसानि च सुमेध्यानि भक्ष्यन्ताम् यो यदिच्छति उच्छोद्य स्नापयन्ति स्मरदीतीरेषु वल्गुषु अप्येकमेकम् पुरुषम् प्रमदाः सप्त चाष्ट च संवाहन्त्यः समापेतुर्नार्यो विपुललोचनाः परिमृज्य पाययन्ति वराङ्गणाः हयान् गजान् खरानुष्ट्राम् तथैव सुरभेः अभोजयन् वाहनपास्तेषाम् भोज्यम् यथाविधि इक्षूम् शमधुलाजांश्च भोजयन्त्यस्म वाहनाल् इक्ष्वाकुवरयोधानाम् चोदयन्तो महाबलाः नाश्वबन्धोऽश्वमाजानाम् न गजम् कुञ्जरग्रहः मत्तप्रमत्तदिता सा च मोस्तत्र सम्बभौ सर्वकामैश्च रक्तचन्दनरूषिता अप्सरोगणसंयुक्ताः सैन्या वाचमुदीरयन् नैवायोध्याङ्गमिष्यामो नगमिष्याम दण्डकान् कुशलम् भरतस्यास्तु रामस्यास्तु तथा सुखम् इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः अनाथास्तम् विधिम् लब्ध्वा वाचमेतामुदीरयन् सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् नृत्यन्तश्च हसन्तश्च गायन्तश्चैव सैनिकाः समन्तात्परिधावन्तो माल्योपेताः सहस्रशः ततो भुक्तवताम् तेषाम् तदन्नममृतोपमम् दिव्यानुद्वीक्ष्य भक्ष्याम् स्तानभवद्भक्षणे मतिः प्रेष्याश्चेट्यश्च वध्यश्च बलस्थाश्चापि सर्वशः भभोवस्ते भृशम् प्रीताः सर्वे चाहतवाससः कुञ्जराश्च खरोष्ट्राश्च गोष्वाश्च मृगपक्षिणः बभूवुः सुभृतास्तत्र नातो ह्यन्यमकल्पयत् नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा रजसाध्वस्तकेशो वा नरः कश्चिदृश्यत आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः फलनिर्योह संसिद्धैः सूपैर्गन्धरसान्वितैः पुष्पध्वजवतीः पूर्णाः ताश्च कामदुघागामो द्रुमाश्चासम्मधुच्युतः वाप्यो मैरेयपूर्णाश्च मृष्टमांस चयैर्वृताः प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः पात्रीणाम् च सहस्राणि स्थालीनाम् नियुतानि च न्यर्बुदानि च यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ह्रदाः पूर्णारसादस्य दध्रश्वेतस्य चापरे बभूवः पायसस्यान्ये शर्कराणाम् च सञ्चयाः कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ददृशुर्भाजनस्थानि तीर्थेषु सरिताम् नराः शुक्लानंशुमतश्चापि दन्तधावन सञ्चयान् शुक्लांश्चन्दनकल्कांश्च समुद्रेष्वतिष्ठतः दर्पणान् परिमृष्टांश्च चा वाससाम् चापि सञ्जयान् पादुकोपानहम् चैव युग्मान्यत्र सहस्रशः आञ्जनीः कङ्कतान् कूर्चांश्चत्राणि च चा धनूंषि च मर्मत्राणानि चित्राणि शयनान्यासनानि च प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् अवगाह्यसुतीर्थाम्श ह्रदान् स्वोत्पलपुष्करान् आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखोप्लवान् नीलवैदूर्यवर्णांश्च मृदून्यवस सञ्चयान् निर्वापार्थम् पशूनाम् ते ददृशस्तत्र सर्वशः यस्मयन्तमनुष्यास्ते स्वप्नकल्पम् तदद्भुतम् दृष्ट्वातिथ्यम् कृतम् तादृग्भर महर्षिणा इत्येवम् रममाणानाम् देवानामिव नन्दने भरद्वाजाश्रमे रम्ये सा रात्रिर्यवत्यवर्तता प्रतिजग्मुश्च तानद्योगन्धर्वाश्च यथागतम् भरद्वाजमनुज्ञाप्यताश्च सर्वावराङ्गनाः तथैव मर्तामदिरोत्कटानरास्तथैव दिव्या तथैव दिव्या विविधाः स्रगुत्तमाः पृथग्विकीर्नामनुजैः प्रमर्दिता इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे एकनवतितमः सर्गः